अथर्वेदे चतुर्थाष्टके चतुर्थोऽध्यायः ओतस्य गोपावधितिष्ठतो रथं सत्यधर्माणा परमे व्यो यमत्रमित्रा यमत्रमित्रावरुणावथो युवन्तस्मै वृष्टिर्मधु मत्पिन्वते दिवः सम्राजा आवस्य भुवनस्य राजथो मित्रा आवरुणा विदथे स्वदृशा वृष्टिम्बाम् राजो अमृतत्वमी महेद्यावापृथिवी विचरन्ति संयवाः सम्राजा उग्रा वृषभादिवस्पते पृथिव्या मित्रावरुणा विचर्षणी चित्रेभिरभ्रैरुपतिष्ठथो रमन्द्याम् वर्षयथो असुरस्य मायया मायावाम् मित्रावरुणादिभिः श्रितासूर्यो ज्योतिश्चरति चित्रमायुधम् परमभ्रेण वृष्ट्या गोहथो दिवि पर्यन्यद्रप्सा मधुमन्त ईरते रथञयुञ्जते मरुतः शुभे सुखं शोरो न मित्रावरुणा गविष्ठिषु रजा हंसि चित्रा विचरन्ति तन्यवो दिवः सम् राजा पयसान उक्षतम् वाचम् सुमित्रावरुणा विरावतीम् पर्जन्यश्चित्राम् वदति द्विषीमतीम् अभ्रावसतमरुतः सुमाजयाद्याम् वर्षयतमरुणामरेपसम् धर्मणा मित्रावरुणा विपश्चिता व्रता रक्षेथे असुरस्य मायया रतेन विश्वम् भुवनम् विराहायतः सूर्यमाधत्थो दिविचित्र्यम् रथम् वरुणम् वो रिषादसमृचाभित्रम् भवामहे पर्यौरजेव बाह्वोर्जगङ्गाम् सा स्वर्णरम् ताबाहवासु चेतुना प्रयन्तमस्मा अर्चते शेवम् हि दार्यम्भाम् विश्वा सुक्षासुजोगुवे यन्नो नमस्याम् गतिम् मित्रस्य यायाम् पथा अस्य प्रियस्य शर्मण्यहिम् सानस्य सश्चिरे युवाभ्याम् मित्रावरुणोपमन्धे यामृच यद्धर्क्षये मघोनाम् स्तोतॄणाम् च स्फूर्धसे आनो मित्रसु दीतिभिर्वरुणश्च सहस्थः स्वेक्षये मघोनाम् सखीनाञ्च वृथसे युवन्नो येषु वरुणक्षत्रम् बृहच्च बिभृतः वरुणो देवक्षत्रे कृतम् राजेश्वस्तये उच्छन्त्याम् मेजता देवक्षत्रैरुषद्गवि सुतम् सोमन्नहस्तिभिरापड्भिर्धापतन्नराविभ्रतावर्चनानसम् यश्चिकेतस सुक्रतुर्देवत्रासब्रवीतुनः वरुणो यस्य दर्शतो मित्रो भावनते गिराः ता हि श्रेष्ठवर्चसा राजानादीर्घश्रुत्तमा आ सत्त्वतीर्तावृधृता वा नाजने जने, जने। तावा वा वसे पूर्वा उपब्रुवे स स्वश्वा आसस्सु चेतुनावायाङ्गेः मित्रोऽम्भोश्चिरा दुरुक्षया आय गातुम् वदते मित्रस्य हि प्रदोर्वतः सुमतिरस्ति विधरः वयम् मित्रस्यावशिष्याम सप्रथस्तमे अनेह सस्तोतयः सत्रावरुणशेषसः युवम् मित्रे मञ्जनय्य तथः सञ्चनयथः मा मघो नः परिक्षतम् अस्माकऋषेणाङ्गोपीठेन उरुष्यतम् आचिकिता न सुक्रतो देवौ मर्तरिषादसा वरुणाय ऋतपेशसेदधीतप्रयसे महे ता हि क्षत्रमभिहृतम् सम्यगसुर्या अमाशाते अधौ रते ममानुशं स्वा अर्णधायि वामेषे रथानामुीङ्गव्यतिमेषा प्रातहौ यस्य सुष्ठुतिन्दधृक् स्तोमैर्मनामहे अथा हि काव्या आयुवम् दक्षस्य पूर्भिरद्भुता निकेतुना जनानाञ्चिकेथे पूतदक्षसा तदृतम् पृथिविभृहच्छ्रव एष आयद्वामीयलक्षसामित्रभयम् वयंच सूरयाः यजिष्ठे बहुपायेयते महिस्वराज्ये बलित्थादेवनिष्कृतमादित्याय जतम् रहत् वरुणमित्रार्यमन्वर्षिष्ठम् क्षत्रमाशाथे आयद्योलिङ्गिरण्यजम् वरुणमित्रसरसः न्ताराचर्षणीना यन्तम् सुम्नम् ऋषादसा विश्वे हि विश्ववेदसो वरुणो मित्रोऽयमा व्रतापदेपसश्चिरेपान्तिमत्यम् विशः ते हि सत्यारतस्पृशरता वा नो जने जने सुमेथासः सुदानभूम्भोऽश्चिदुरुचक्रयः को नु वातुतो वरुणो वा तनूनाम् तत्सुपामेषते मतिरत्रिभ्यवेषते मतिः प्रभो मित्रायकायतवरुणाय विपागिरा महिक्षत्रावृतम् रहत् सम्राजाय धृतयोनिमित्रश्चोपावरुणश्च देवा देवेषु प्रशस्ता दानश्च पार्थिवस्य महोराजो दिव्यस्य महिमान् क्षत्रम् देवेषु व्रतवृते न सपन्दे शिरम् रक्षमाशाते अद्रुहा आ देवौ वर्धेते वृष्टिद्या आवारीत्याः पेशस्पतीदानुमत्याः बृहन्तम् गर्तमाशाते त्रीरो ओचरावरुणत्रे मृतद्योन्त्रेण मित्रधारयथोरजांसे वावृधानावमतिम् क्षत्रियस्या नूव्रतम् रक्षमाणावधुर्यम् वतीर्वरुणधेनवोभाम् मधुमद्भाम् सिन्धवो मित्रदुःख्रे त्रयस्तस्थुरवृषभाषस्तिसृणाम् धिषणाः नाम् रेतोधा विद्युमन्ताः प्रातर्देवी मतिञ्जोहवेमि बध्यञ्जिन उदिता सूर्यस्य राजेमित्रावरुणा सर्वता तेळे एतोकायतनयायसंयोः या धर्ता रारजसोरोचनस्योतादित्यादिव्या पार्थिवस्य नवान् देवा अमृताः विनन्ति व्रतानि मित्रावरुणा ध्रुवाणी पुरोरुणाः चिद्यस्त्यवो नूनम् वाम् वरुण मित्रवंशिवाम् सुमतिम् तावाहम् सम्यगद्रुह्वाणे शमश्यामधायसे वयन्ते रुद्रास्याम पातन्नो रुद्रापायुभिरुतत्रा येथाम् सुत्रा तुल्यामदस्योन्दोभिः मा कस्याद्भुतक्रतो यक्षम्भुये मातनोभिः मा शेषसा मातनसा आनोऽगन्तम् रिषादसा वरुणमित्रपर्मणाः उपेमञ्चारुमध्वरम् विश्वस्य हि प्रचेतसा वरुणमित्रराजथः ईशानापिप्यतन्धिजाः उपनः सुतमागतम् वरुणमित्रदाशुषाः अस्य सोमस्य पीतये आमित्रे वरुणे वयङ्गीर्भिर्जुहुमो अत्रिवत् निबर्हिषि सततम् सोमपीतये व्रतेन स्थो ध्रुवक्षे एमाधर्मणायातयज्जना निबर्हिषि सद तम् सोमपीतये मित्रश्च नो वरुणश्च दुषेताञ्ज्यज्ञमिष्टये निबर्हिषि सदतां सोमपीतये यदस्थः परावति यदर्वत्यश्विना यद्वाहा पुरोपुरुभुजायदन्तरिक्ष आगतम् निहत्या पुरुभूतमा पुरु मान्यद्वपुषे वपुश्चक्रम् रथस्य ये मथुः पर्यन्यानाहुषाजुगामह्ना रजाहंसिदी यथः तदूषु वा मेनाकृतम् विश्वा यद्वामदृष्टवे नानाजाता युगोरस्त्रिश्चिकेतति नरा आसुम्नेन चेतसा घर्मै यद्वा आमरेपसन्ना सत्यास्नाभुरण्यते उग्रो वा अङ्कगुहो ययि शृण्वेयामे एषु सन्तनिः यद्वान्दंसोऽभिरश्विना त्रिण्णरावर्तते मध्व ऊषु मधूयुपारुद्रासि शक्तिपिप्युषे यत्समुद्रातिपर्षधः पक्वाः पृक्षो भरन्तवा सत्यमिद्वा उ अश्विना युवामाहुर्मयो भुवाः तायामन्यामहोतमायामन्या मृळयत्तमा इवा ब्रह्माणिवर्धनाश्विभ्याहम् सन्तुषन्तमा या दक्षाः मरथाहम् इवा वोचाम बृहन्नमाः कोष्ठो देवावश्विनाद्यादिवो मनावसो तच्छ्रवथो वृषण्वसो अत्र वामापिभासते कुहत्या कुहनुश्रुतादिपि देवानासत्या कस्मिन्नायतथो जने को वा नदीनाम् स चा कन्या अथः कस्य ब्रह्माणिरण्यथो वयम् वा आमुष्मसेष्टये पौरञ्चिद्युदप्रुतम् पौरपौरा यदिन्वथः यदे इन्द्रभीततातये सिंहमिव दृहस्पते प्रत्यवानाज्युजुरुषो पौरिमत्कर्णमुञ्जथः युवाजते एकृतः पुनराकाममृण्वे बद्धाः अस्ति वा लिहस्तोता स्म शिवाम् सन्दृशश्रिये नो श्रुतम् महागतमवोभिर्वाजिनीवसु को रामद्यपुरूणामावौ नेमर्त्यानाम् को विप्रो विप्रवाहसा को यज्ञैरुवाजिनीवसु आवाम् रथो रथानान्येष्ठो यात्वश्विना पुरोचिरस्मयुस्तिर आङ्गोशो मर्त्येष्वा शमोषु वाहम्मधो युवास्माकमस्तु चर्कृतिः र्वाचीनाभिचेतसा विभिष्येनेव दीयतम् अश्विना यद्धकरहिच्छुश्रूजातमिमम् हवम् वस्वे एरोषु वाम्भुजः पृञ्चन्ति सुवाम् वृचाः प्रतिप्रियतमम् रथम् वृषणम् वसुवाहनम् स्तोतावामश्विना वृषिस्तो मे एनत्प्रतिभूषति माध्वेमश्रुतम् हवम् अत्याया आनमश्विनातिरो विश्वा अहंसनाः दस्राहिरण्यवर्तने सुषु नासिन्धुवाहसा माध्वेमश्रुतम् भवम् आ, आ। नो रत्नादिबिभ्रता वश्विना गच्छतम् युवम् रुद्राहिरण्यवर्तने तुषाणावादि सोमाध्वे ममश्रुतम् भवम् सुष्टु हो वामृषण्सो रथे वाणीच्याहिता उतङ्गगो मृगः पृक्षः कृणोति वा पुषो माध्वे मम हवम् बोधिन्मनसा रथ्ये शिराह मनःश्रुताः विभिष्ट्य वा नमश्विनानि याथो अद्वयाभिनम् माध्वे हवम् आवाहन्नरामनो युजोऽश्वा सः वयो वहन्तु पीतये सह सुन्देभिरश्विनावाद्धेममश्रुतम् मा हवम् अश्विनावेहगच्छतम् नासत्या माविवेरतम् तिरश्चिदर्यया परिवर्तिर्या आतमदाभ्यावाद्धेममश्रुतम् हवम् अस्मिन् यज्ञे अदाभ्या चलितारम् शुभस्पते अवश्यमश्विना युभम् गृणन्तमुपभूषथो माद्धेममश्रुतम् मा हवम् अभो दुषारुषत्पशुराग्निरथायि रत्विजाः अयो जिवामृषण्सो रथो दस्रावमर्त्यो माध्वे मम श्रुतम् हवम् आभात्यग्निरुषसामनेकमुद्विप्राणान् दे पयावाचो अस्थुः अरुवाञ्चा नूनम् समश्विना कर्म न संस्कृतम् रमिमीतो गमिष्ठान्ति नो नमश्विनोपस्तुतेह दिवाः विपित्ते वसागमिष्ठा प्रत्यवर्तिन्दाशुशेषम्भमिष्ठा उदायाः तम् सङ्गमे प्रातरन्नोः मध्यन्दिन उदिता सूर्यस्य दिवा नक्तमवसाशन्त मे नेदानेहिम् वीतिरश्विना ता इदम् हि माहम् प्रतिभिष्ठा नमोक इमे गृहा अश्विदम् दुरोणम् आ नो दिवो बृहतः पर्वतादाभ्यो यातमिषमूर्जम् वहन्ता समश्वियोवसा नूतने न मो भुवाः सुप्रणीति गमेम आ नो रजिम् वहतमोत ता वीराना विश्वान्यवृतासौभगाने प्रातर्यावाणा प्रथमाजध्वम् पुरा गृध्रादररुषः पिबातः प्रातर्हि यद्धमश्विनाः तथा ते प्रशंसन्ति कवयः पूर्वभाजाः प्रातर्यजध्वमश्विना हि नोतनसायमस्ति ते भजा अजुष्टम् उदान्यो अस्मद्यजते किरण्यत्वम् मधुवर्णो घृतस्तु पृक्षो बहन्ना रथो वर्तते वा मनो जा अश्विनापातरम् भाजेनादिजाथो दुरितादिविश्वा यो भोजिष्ठन्ना सत्याभ्याम् विवेशजनिष्ठम् वित्तो ररते विभागे सतो तमस्य पीपरच्छ समश्विनो रवसा नूतनेन मयो भुवाः सुप्रणीति गमेम आ गमे नो ओरम्बा तोत वीराना विश्वान्यमृतासौ भगानि अश्विना वेह गच्छतम् न सत्या मा विवे न अश्विना हरिणाविव गौराविवानुयवसम् हंसा विव अश्विना वाजिनीवसो जुषेथाह्यज्ञमिष्टेः हंसापि सुताङ्कुपा अत्रर्यद्वा आमवरोहम् द्रवे समजो हवेपयोषाः श्येनस्य चिज्जवसा नूतनेनागच्छतमश्विनाशन्तमेन वनस्पतेयो निःसूष्यन्त्या इव श्रुतं मेः अश्विनाहवम् अश्विना सप्तवध्रिञ्च वञ्चतम् भीता जनाधमाना जर्षजे सप्तवध्रजे माजाभिरश्विना युवम् वृक्षम् सञ्चविचाचः यथा वातः पुष्करिणीम् स मिङ्गयति सर्वथाः एवाते गर्भ एजति निरयितु दशमास्यः यथा वातो यथा वन्यथाः समुद्र एजति एवाम् दशमास्य सहावे एहि जरायुना दशमासा अंशया कुमारो अधिमातरि निरैतु जीवो अक्षतो जीवो जीवन्त्याधि महेनाव्योधयोशो राजेधिवित्मते यथा चिह्नो अबोधयः सत्यश्रवसि वाह्ये सुजाते अश्वसूनृते यासु नेथेशौ च द्रथे व्यौच्छो दुहितर्दिवः सा व्युच्छसहीयसि सत्यश्रवसि नो अद्या भरद्वसुर्दुच्छादुहितर्दिवः योऽव्यौच्छः यो स हीयसि सत्यश्रवसि बाह्ये सुजाते अश्वसूनृते अभियेत्वा आविभावरि स्तोमयैर्गृणन्ति वह्नयः मघैर्मघो निशुश्रियो दामन्वन्तः सुरातयः सुजाते अश्वसूनृते यच्चिद्धिरे इमे छदयन्ति मघत्तये परिचिद्वष्टयो दधुर्ददतो राधो अह्रजम् सुजाते अश्वसूनृते अयषु धावीरवद्यश उषो ओमघोनिसूरिषु येनो राधांस्यह्रया मघवा नो अराहासत सुजाते अश्वसूनृते तेभ्यो अद्युम्नम्रहद्यश उषो ओमघोन्यावह येनो राधांस्यश्वा आगम्या भजन्तसूरजः सुजाते उत नो गोमतीरिषहावहादुहितर्दिवः साकम् सूर्यस्य रश्मिभिः शुक्रैःभिरर्चिभिः सुजाते अश्वसूनृते द्युच्छादुहितर्दिवो वाचिरन्दनुथापाः ने त्वा स्तेन यथा आदिपुन्तपा आदिसूरो अर्चिषा सुजाते अश्वसूनृते एतावद्वे दुषस्तम् भूयोतुमर्हसि ृभ्यो विभाव प्रमीयसे सुजाते अश्वसूनृते विगद्या आमानम् रहति मृतेन लृतापरीमरुणप्सु विभातिम् देवीमुषसंस्वरा वहन्तीम् प्रतिविप्राः सोमरिर्जरन्ते एषा जनम् दर्शता बोधयन्ति सुगान्पसः कृण्वति यात्यग्रे बृहद्रथा बृहते विश्वमिन्वोषा ज्योतिर् यच्छत्यग्रे ऋतस्य पन्थामन्वेति साधु प्रजानते वनदिशो मिनाति एषा शुभ्राणतन्वो विधानोऽर्ध्वे वस्नाति वस्नाते नोऽस्थात् अपद्वेषो बाधमानातमांस्युषा दिवो दुहिता ज्योतिषागात् एषा प्रतीची दुहिता दिवो नृण्योषे एव भद्रा निर्णीते अप्साः योन्मती राशु सेवार्याणि पुनर्ज्योतिर् युवतिः पूर्वथा आकः युञ्जते मन उत धियो विप्रा विप्रस्य बृहतोऽपि पश्चिताः विहोत्रा आदधेव युनाविदेक इन्मही देवस्य स पितुः परिष्तुतिः विश्वा आरूपाणि प्रतिमुञ्जते कविः प्रासा वेद्भद्रम् द्विपदे विनाकमख्यत्स विता वरेण्यो नु प्रयाणमुषसो विरा आजति यस्य प्रयाणमन्मन्य इद्ययुर्देवा देवस्य महिमा नमोजसा यः पार्थिवानि वि ममे स एतशोरजाहंसि देवः स पिता महित्मना सूर्यस्य रश्मिभिः समुच्यसि उत एव उभयतः परिहीयस उत मित्रो भवसि देवधर्मभिः उते शिषे प्रसभस्य त्वमेक इदुत पूषाभवसिरे भयामभिः उतेनम् विश्वम् भुवनम् विराजशिष्याबाश्वस्ते सभितस्तो मनसे तत्सवितुर्वृणीमहे भयम् देवस्य भोजनम् श्रेष्ठम् सर्वदातमन्तुरम् भगस्य धीमहि अस्य स्वराज्यम् स हिरत्नाः निदाशुषे सुवाति सविता भगाः तम् भावम् चित्रमीमहे अद्या नो देव सवितः प्रजावत्साभिः सौभगम् परा दुष्मप्रियम् सुवा विश्वाहानि देवसवितर्दुरितानि परासु वा यद्भद्रम् तन्न आसु वा अनाकसो देवस्य सवितुः विश्वाहा पामानि धीमहि आ एवं सवितारं उभे अहने विश्वतें सत्पतिद्याृणीमहे सत्यंसिता इे अहनी पुरा प्रयुन्न स्वातेर्देव स एना यश्वाता सविता अच्छा आदत तब संगीराजन्यन्सा कलिक्रलद्वृषभो जीरदा नूरेतो लत्योषधी सुगर्भम् विवृक्षान्हन् विवहन्ति रक्षसो विश्वम् विभाजभुवनम् महावधात् उतानागा ईशते वृष्ण्या आवतो यत्पर्जन्यस्तनयन्हन्ति दुष्कृताः रथे बकषयाश्वाङ्गभिक्षिपन्नाविर्धूताम् कृणुते वर्ष्या आ, आ, आ, आ, आ, आ, आ, आ दूरात्सिंहस्यस्तनथा उदे यत्पर्जन्यः कृणुते वर्ष्या अन्नभाः प्रभाता वान्ति पतयन्ति विद्युत उदोषधेर्जिहते पिन्वते स्वाह इरा विश्वस्मै भुवनायजायते यत्पर्जन्यः पृथिवीम् रेतसापति यस्यौ रते पृथिवीरन्नमेति यस्यौ रते शभवज्जर्भुरीति यस्यौ रथ ओषधीर्विश्वरोपासनः पर्जन्यमहि शर्म यच्छ दिवो नो वृष्टिम् मरुतोरलीद्भ्रपिम् वरकृष्णो अश्वस्य धाराः अरुवामेतेनस्तनवित्नुने ह्यपो निषिञ्चन्न सुरः पितानाः अभिक्रन्दस्तन जगर्भमाधाः उदन्वता रथेन धृतिम् सुकर्षितम् यम् चम् समाहवन्तोद्बतो निपादाः महान्तङ्कोशमुदचारिषिञ्चस्यन्तङ्कुल्याविषिताः पुरस्तात् घृते नद्यावाः पृथिमेव्युन्निषु सुप्रपाणम् भवत्पत्न्याभ्याः यत्पद्यकनिकृतस्तनयह्ंसि दुष्कृताः प्रतीतम् विश्वम् मोदते यत्किञ्च पृथिव्यामधि अपर्षेर्वर्षमुदुषो गृभाया तन् वा न्यत्ये एतवा ओ अजि एजन ओषधेर्भोजनायकमुत प्रजाभ्यो विदो मनीषा बळित्था पर्वतानाम् छिद्रम् बिभर्षि पृथिवी प्रजा भूमिम् प्रभत्पतिमह्नाजिनोषि महिनि स्तोमासस्त्वा विचारिणि प्रतिष्ठोभन्त्यक्तुभिः प्रया वा जह्महे सन्तम् भेरुमस्य अर्जुनि जसा यत्ते अभ्रस्य विद्युतो दिवो वर्षन्ति वृष्टयाः वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युदाः रोहन्तु सर्वबीजान्यवब्रह्म द्विषो जहि प्रसंराजे बृहदर्चागभीरम् ब्रह्म प्रियम् वरुणाय श्रुताय वियोजका न शमिते वचर्मोपस्थिरे पृथिवीम् सूर्याय वने शुव्या अन्तरिक्षन्तता न वा रमर्वत्सुपय उश्रियासु हृत्सुक्रतुम् वरुणो अप्स्वा अग्निम् दिवि सूर्यमदधात्सो मम द्रौ नीचेन पारम् वरुणः कबन्धम् रस सर्धरोदसे तेन विश्वस्य भुवनस्य राजाय भन्नवृष्टिर्युनत्तिभूम पुरत्तिभूमिम् पृथिवीमुतव्याम् यदा दुग्धम् वरुणो वश्यादिर समभ्रेण वसतपर्वदासस्तविशीयन्दश्रसयन्द वीराः इमामोश्वासुरस्य श्रुतस्य महीम् मायाम् वरुणस्य प्रवोचम् मानेतस्थिवाङ्न्तरिक्षेऽपि यो ममे पृथिवीम् सूर्येण इमामोनुकवितमस्य मायाम् महीम् देवस्य न किरातधर्ष एकैयदुद्रा न प्रणन्त्ये ने एरासिञ्चन्ते एरवनयः समुद्रम् अर्यम् यम् वरुणमित्यम् वासखा अयम् वासदमिच्छातलम्बा कितवासो यद्रि रिपूर्ण देवि विद्ना सर्वाताविष्येव देवा इन्द्राग्नेयमवथ उभा वाजे एषु मत्यम् दृह्णाचित्स प्रभेददिद्युम्ना वाणीरिवत्रितः या पृतनासु दुष्टराया वाजे एषु श्रवाय्याः या पञ्चदर्षणीरभिन्द्राग्नीता ह वामहे ता वामे शे रथानामिन्द्राग्नीहवामहे पते एतुरस्य राधसो विद्वांसा गिर्वणस्तमा तावृथन्तावनुद्योन्मर्ताय देवापदभाः अर्हन्ता चित्पुरोदथेऽंशे एव देवा पर्मते एवेन्द्राग्निभ्यामहाभिहव्यम् शोष्यम् घृतन्नपूतमद्रिभिः तासूदिशुश्रवो बृहद्रजिम् गृणत्सुदि धृतमिरम् गृणत्सुदिधृतम् प्रवो महे मदयो यन्तु विष्णवे मरुत्पते गिरिजाये एपयामरुत् प्रसद्धाय प्रये जाता महिना ये तनु स्वयम् प्रविद्मनाः ब्रुवत एवयामरुत् तद्वो मरुतो नाधृशेश वो दानामह्ना तदे एषामधृष्टा सो नाद्रयः प्र ये दिवो वृसतशृङ्गे या सुवानः शुभ एवयामरुत् तद क्रमे महतो निरुरुक्रमः समानस्माच्छदस एपयामरुत् यदा युक्तत्मना स्वालधिष्णुभिर्विष्पर्धसो विमह सोदिगाःतिशे वृतोर्भिः स्वनो न वोमवान्द्रे जद्वृषाः त्वेषो जयिस्तविष एवयामरुत् येनासहन्तरञ्जतस्वरो जिषस्थारश्मानो हिरण्ययाः स्वाजुधास इष्मिनाः अपारो वो महिमा वृद्धशवसस्त्वे शंशवो वत्ते मयामरुत् स्थारोहि प्रथितौ सन्दृशि स्थनते न उरुष्यता निदशु शुक्वाम् सोनाग्नयाः ते रुद्रासुमखा अग्नयो यथा तु विद्युम् न अपन्ते पयामरुत् दीर्घम् पृथुपप्रथे सद्मपार्थिमञ्जेषामज्मेष्वा महः श्रद्धाम् अद्वेषो नो मरुतो गातुमेतनः श्रोताहमञ्ज ऋतुरे वयामरुत् विष्णोर्मह समन्यभोलियोतनस्मद्रच्छो ओनतं सनापद्वेषाहंसि सनुतः गन्ता नो यज्ञैयज्ञया सुशमिश्रोताहवम रक्षरे वयामरुत् ज्येष्ठासो न पर्वता सोम्यो मनि योजन्तस्य प्रचेत स्यात दुर्धर्त वो निदः हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजाम् चन्द्राम् हिरण्मयीलक्ष्मीञ्जातवेदो महामह ताम् महावह जातवेदो लक्ष्मीमनपगामिनी यस्याम् हिरण्यम् बिन्दे जङ्गामश्वम् पुरुषानहम् अश्वपूर्वामृतमध्याम् हस्तिनाहदप्रमोदिनीम् श्रियम् देवेमुपह्वजे श्रीर्माः देवेजुषताम् कांसोऽस्मिताम् हिरण्यप्राकाराः आर्द्रान् ज्वलन्तीम् तृप्ताम् तर्पयन्तीम् पद्मे स्थिताम् पद्मवर्णान्तामिहोपह्वजे श्रियम् चन्द्राम् प्रभासा यशसाद्वलम् तेम् श्रियल्लोके देवजुष्टामुदाराम् ताम् पद्मिनेम् शरणमहम् प्रपद्ये लक्ष्मीर्मे नश्यताम् ताम् वृणे आदित्यवर्णेतपसोऽधिजातो वनस्पतिस्तवृक्षोऽथ बिल्वः तस्य फलाः नितपसानुदन्तु मायान्तराजाश्च बाह्याः लक्ष्मीः उपैतुमान्दे सखः कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिवृद्धिम् ददातु मे क्षुत्तिपासामलाम् ज्येष्ठामलक्ष्मीर्नाशयाम्यहम् अभूतिमसमृद्धिम् च सर्वान्निर्नुत मे गृहात् गन्धद्वारान् दुराधर्षान्नित्यपुष्टाङ्करेषिणी ईश्वरेम् सर्वभूतानान्तामिहोपह्वये श्रियम् मनसः काममाकोदिम्वाचः सत्यमशीमहि पशूनाम् रूपमन्नस्य मयि कर्दमेन प्रजाभूता मयि सम्भव कर्दमा श्रियम् वासय कुले मातरं पद्ममालिनी आपसृजन्त्वस्निग्धाः निचिक्लेहि तपस मे गृहे निच मातरं श्रियम् वाचय मे कुले आर्द्राम् पुष्करिणीम् पुष्टिम् पिङ्गलाहम् पद्ममालिनीम् चन्द्राम् हिरण्मयी लक्ष्मीञ्जातवेदो महावः आर्द्रां यः करिणी यष्टिं सुवर्णाम् हेममालिनीम् सूर्याम् हिरण्मयी लक्ष्मीञ्जातवेदो महावह ताम् महावह जातवेदो लक्ष्मीमनपगामिनी यस्याम् हिरण्यम् प्रभोदङ्गावो दास्योऽश्वान् विन्देयम् पुरुषानहम् यश्व च विप्रयतो भूत्वा जूया राज्यमन्वहम् सूक्तम् पञ्चदशचञ्च श्रीकामसतम् जपेत् पद्मा आनने पद्मविपद्मपत्रे पद्मप्रिये पद्मदलायताक्षी विश्वप्रिये विष्णुमनोनुकूले त्वत्पालपद्मम् मयि सन्निधत्स्व पद्मानने पद्मा पद्मपूर्वताक्षि पद्मसम्भवे पद्मा तन्ने भजसि पद्माक्षयेन सौ ओख्यम् लभाम्यहम् अश्वदायै च गोदायि जलदायै महाधने धनम् मे दुषताम् देवि सर्वगा मां देहि मे पुत्रपौत्रधनम् धान्यम् प्रजानाम् भवसि माता आयुष्मन्तम् करोतु मे धनमग्निर्धनम् वायुर्धनम् सूर्यो धनम् वसूः धनमिन्द्रो बृहस्पतिर्वरुणो धनमश्मिनौ वैनते यसोमम् पिब सोमम् पिबतु वृत्तः सो बन्धनस्य सो सो सोमिनो मह्यम् ददातु सोमिनाः नक्रोतो क्रोधो न तमात्सर्यन्न लोभो न शुभामतिः भवन्ति कृतपुण्यानाम् भक्त्या श्रीसोक्तजापिनाम् सरसिलनिलये सरोजहस्तेथबलतराम् शुलगन्धमाल्यशोभे भगवति हरिवल्लभे हे मनोज्ञे त्रिभुवनभूतिकरि प्रसेद मह्यम् विष्णुपत्नीम् क्षमाम् देवीम् माधवे इम् माधवप्रियाम् लक्ष्मी प्रियसखीन् देवी्युत वल्लभा महालक्ष्म्यै च विद्महे ए विष्णुपत्न्यै च धीमहि कर्णो लक्ष्मी प्रचोदयात् आनन्दर्दमश्रीतश्चिक्लेतरि विश्रुताः ऋषयः श्रियः पुत्राश्च श्रीर्देवेर्देवतामताः ऋणरोगारि मम सर्वदा श्रिरीर्वर्चस्वमायुष्यमारोग्यमाभिधाच्छोभमानम् महीयते धान्यम् धनम् पशुम् बहुपुत्रलाभम् शतसंवत्सरन् दीर्घमायोः यज्ञे प्रथमो मनोता विश्वेश्वरविरूपाक्षविश्वरूप सदाशिव शरणम् भवभूतेश करुणाकरशङ्कर हर शम्भो महादेव विश्वेशामरवल्लभा शिव शङ्कर सर्वात्मन्यीलकण्ठनमोऽस्तु ते मृत्युञ्जयाय रुद्राय भीलकण्ठाय शम्भवे अमृतेशाय सर्वाय महादेवाय ते नमः उग्रायोग्राघनाशाय भीमाय भयहारिणे ईशानाय नमस्तुभ्यम् पशूनाम् पतये नमः दश सप्तदशनामानि मण्डलान्तेषु यः पठेत् स शिवलोके महीयते नास्ते मृत्युभयम् तस्य पापरोगादिकिञ्चन यज्ञेशाच्युतगोविन्दमाधवानन्दकेशव कृष्णविष्णो ऋषिकेशवासुदेव नमोऽस्तु ते कृष्णाय गोपिनाथाय चक्रिणे मुरवैरिणे रुक्मिणीशाय गोपाय गोविन्दाय नमो नमः साक्षान्मूलप्रमाणाय विष्णोरमिततेजसे आद्याय नमो नमः हरिहर शिवशङ्कर वामन वासुदेव विरामस्तावत् विश्वेश्वराय नः हरिः ओम् ओम श्रीगुरुभ्यो नमः हरिः ॐ त्वम् ह्यग्ने प्रथमो मनोदास्याधिजो अभवोदस्महोता त्वम् श्रीम् ऋषन्न कृणोर्दुष्टरे एतुसहो विश्वस्मै सहसे सहध्यै अथाहोतान्यसे दो यजेयानिलस्पद इषयन्नेड्यः सन् तन्त्वादरः प्रथमन्दे वयन्तो महोराजे चिरयन्तो अनुग्मन् वृते वयन्तम् बहुभिर्वसव्यै ऐस्ते रजिञ्जा द्रुवांसो अनुग्मन् कृषन्तमग्निम् दर्शतम् गृहन्तम् प्रपावन्तम् विश्वः आदिदिमांसम् पदम् देवस्य नमसाव्यन्तः श्रवस्य वश्रव आपन्नमृत्तम् नामालिजिद्दधिरे सपर्येण्यः स प्रियो विक्षा अग्निरुहोता आमन्द्रो निषसादायजीयान् तन्ता वयम् तम आदे दिवाम् समुपज्ञुपाधो नमसा सदेम तन्ताभयम् शुद्धो ओनम्यमग्ने सुम् नायव इमहे दे पयन्ताः त्वम् विशो अनजोदीद्या नो दिवो अग्ने विषाम् कविम् विष्पतिम् शश्वतीनान्यतोषनम् ऋषभञ्जर्षणीना प्रेतेषणि विषयन्तम् पावकम् राजन्तमग्नीयजतम् रजीणा सोऽग्नबीजे शमेचमर्थो यस्तानसमिधाः हव्यदाहतिम् य आहुतिम् परिवेदा नमोऽभिर्विश्वेत्स पापामानसतेत् पोताः अस्मा उते मही महिमहे विधे मनमोऽभिरग्ने समिधोदहव्यैः वेदेषो नो सहसो गीर्भिरुक्तैराते भद्रायां सुमतौ यते मा आयस्तदाथरोदसे विभासा श्रवोभिश्च श्रवस्या अस्तरुत्रः बृहद्भिर्वादैः स्थभिरेभिरस्मे रेवद्भिरग्नेऽपितरम् विभाहि द्रवद्वसोऽसदमिद्धे ह्यस्मे भूरितोकायतनजाय पश्वः पूर्वीरिषो बृहती रारे अघ अस्मे भद्रासौ श्रवसादि सन्तु पुरोण्यज्ञे पुरुधात् मायावसूरिराजन्वसुता ते अश्याम् पुरोणिः त्वे वसुविधते राजनित्वे इति चतुर्थाष्टके चतुर्थोऽध्यायः